श्रीमन श्रीमन्महाभारतम् आदिपर्वणि आस्तीकपर्वणि सौपर्णे त्रयस्त्रिंशो अध्यायः सौतिरुवाच तिरुवाच जाम्बूनदमयो भूत्वा मरीचिनिकरोज्वलः मरीचिनिकरोज्ज्वलः प्रविवेशबलात्पक्षीवारिवेगैवार्णवं सचक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम् ज्वलनार्कप्रभम् घोरं छेदनं सोमहारिणाम् घोररूपम् तदत्यर्थम् यन्त्रम् देवैः सुनिर्मितम् तस्यान्तरम् स दृष्ट्वैव पर्यवर्ततखेचरः अरान्तरेणाभ्यपतत्सङ्क्षिप्याङ्गम् क्षणेनः अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती विद्युज्जिह्वौ महावीर्यौ दीप्तास्यौ दीप्तलोचनौ चक्षुर्विशौ महाघोरौ नित्यम् क्रुद्धौ तरस्विनौ रक्षार्थमेवामृतस्य ददर्श भुजगोत्तमौ सदा संरब्धनयनौ सदा चानिमिषेक्षणौ तयोरेकोऽपि यम् पश्येत् सतूर्णम् भस्मसाद्भवेत् तयोश्चक्षूं शिरजसात् सुपर्णः ताभ्यामदृष्टरूपोऽसौ सर्वथ समताडयत् तयोरङ्गे समाक्रम्य वैनतेयोन्तरिक्षगः आच्छिन्नत्तरसा मध्ये सोममभ्यद्रवत्ततः समुत्पाट्यामृतं तत्र वैनतेयस्ततो बली उत्पपातजवेनैव यन्त्रमुन्मथ्यवीर्यवान् अपि त्वैवामृतम् पक्षी परिगुह्याशु निःसृतः आगच्छदपरिश्रान्त आवार्यार्कप्रभां ततः विष्णुना च तदाकाशे वैनते यः समेयिवान् तस्य नारायणस्तुष्टस्तेना कर्मणा तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम् सवव्रेतवतिष्ठेयमुपरीत्यन्तरिक्षगः उवाच चैनम् भूयोऽपि नारायणमिदम् वचः अजरश्चामरश्च स्याममृतेन विनाप्यहम् एवमस्त्विति तम् विष्णुरुवाच विनतासुतं। प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत् भवतेऽपि वरम् दद्याम् वृणोतु भगवानपि तम् वव्रे वाहनम् विष्णुर्गरुत्मन्तम् महाबलम् ध्वजम् चक्रे भगवानुपरि स्थास्यसीति तम् एवमस्त्विति तम् देवमुक्त्वा नारायणम् खगः वव्राजतरसा वेगाद् स्पर्धन् महाजवः तं व्रजतम वज्रेणेन्द्रोभ्यताड़ हर तम अममृत रोषागर पक्षिणाम वरम तमुवाचेन्द्रक्रंदे गरुस्पतताह संश्लक्षण याचा तथा वज्रसम ऋषेर्मा क्या वज्रम यस्थिसंभव वज्रस्य च करिष्यामि तवैव चशतक्रतो एतत्पत्रं त्यजाम्येकं यस्यान्तम् नोपलप्स्यसे न च वज्रनिपातेन एवमुक्त्वा ततः पत्रमुत्ससर्जसपक्षिराट् पर्णमनुत्तमम् हृष्टानि सर्वभूतानि नाम चक्रुर्गरुत्मतः सुरूपम् पत्रमालक्ष्य सुपर्णोऽयं भवत्विति तद्दृष्ट्वा महदाश्चर्यम् सहस्राक्षः पुरन्दरः खगो महदिदम्भूतमिति मत्वाभ्यभाषत शक्र उवाच बलम् विज्ञातुमिच्छामि यत्ते परमनुत्तमम् सख्यम् त्वया सह खगोत्तम इति श्रीमन महाभारते श्रीम्मते आदिपर्वि आस्तीकपर्वि सौपर्णे तयस्िशोध्याय